अथ पञ्चदशोऽध्यायः युधिष्ठिर उवाच उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः न च साम्राज्यमाप्तास्ते सम्राट्छब्दो हि कृच्छ्रभाक् कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति परेण समवेतस्तु यः प्रशस्यस्स पूज्यते विशाला बहुला भो बहुरत्न समाचिता दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वः शममेव परं मन्ये शमात्क्षेमम् भवेन्म आरम्भे पारमेष्ठ्ये तु न प्राप्यमिति मे मतिः एवमेते जानन्ति कुले जाता मनस्विनः कश्चित् कदाचिदेतेषां भवेत् श्रेष्ठो जनार्दन वयं चैव महाभागादरासन्धभयात्तदा शङ्किता स्म महाभागा दौरात्म्यात् तस्य चानघ अहं हितवदुर्धर्ष भुजवीर्याश्रयः प्रभो नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव अर्जुनाद्वा महाबाहो हन्तुं शक्यो न एवं जानन्नि वा स्नेया विमृशामि पुनः पुनः त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव तच्छ्रुत्वा चाब्रवी भीमो वाक्यं वाक्यविशारदः